एवत्योन्दशकम् केसिवदम् यत्नेषु सर्वेष्वपि केसी स बोजेसि दुरिष्टबन्तो त्वम् सिन्धुजावाप्य इतीव मत्वा सम्प्राप्तवान् गन्धर्वतामेष गतोऽपि रूक्षे नादै समुद्वेजित सर्वलोक भवत्पि लोकावधि गोपवाटीम् भ्रमर्त्यपाप पुनरावत त्वाम् दार्क्ष्या विदाङ्ग्रेस्तव दार्क्ष एष सिषे भवक्षो भुविनामपादम् मृगोपदाघातकथाम् निशम्य स्वेनापि शक्यम् ददि दीपमोहात् प्रवञ्चयन् अस्य कुराञ्चलम् त्रा गमुम् च शिक्षेपितदूरदूरम् सम्मूर्छितोऽपिह्यतिमूर्च्छितेन क्रोधोष्मणाघातितुमातृतस्त्वा दे ग्रददीश बांडम यदास्त मुखे तदाने तदृद्धिद्वसनो गतावन अप्ययक्य आलमबुरा प्रसादकोत्न इवा स्वेदेकर्ष वचा सुरेन्द्र त्वाम् दुष्टुवो केशमनामधेयम् कंसायते शौर्यसुतत्त्वमुक्त्वा तम् तद्वधोत्कम् प्रतिरुध्य वाच प्रान्तेन केशी क्षमणावसाने महात्मजप्राबदुरन्तमायो व्योमाभितो व्योमसरो बरोति सचोरपालायितवल्लवेषु चोरायितो गोपशिशुन् पशुम् च गुहासु कृत्वा वितते शिलाबे त्वया च भूत्वा परिमर्तितो भूत् एवम्वितश्चाद्भुतकेलिबेतै आनन्दमूर्च्छामतुलाम् रजस्य पदे पदे नूतनयन्नसीमम् परात्मरूपेन्भवने च पाया कृष्णबोल् कृष्णबोल् कृष्णबोल् कृष्ण कृष्ण कृष्ण कृष्ण कृष्णबोल्